संहितापाठं मित्रोजनान् यातयति ब्रुवाणो मित्रोदाधारपृथिवीमुतद्याम् मित्रः कृष्टिरनिमिषाभिचष्टे मित्राय हव्यङ्घृतवजुहोत मित्रोजनान् यातयति ब्रुवाणो मित्रोदाधारपृथिवीमुतद्याम् मित्रः कृष्टीरनिमिषाभिचष्टे मित्राय हव्यङ्घृतवाजुहोत मित्रो जनान् यातयति ब्रुवाणो मित्रोदाधारपृथि॒वीमुतद्याम् मित्रकृष्टीरनिमिषाभिचष्टे मित्राय हव्यङ्घृतवाजुहोत